श्रीमद्भागवतमहापुराणम् अथ षष्ठोऽध्यायः मैत्रे उवाच अस देवगणा सर्वे रुद्राणेकैः पराजिताः शोलपड्यसन्निस्त्रिं स गदापरेघमुद्गरैः स्वयंभुवे नमस्कृत्य कार्ष्णेनैतन्यवेदयन् उपलभ्य पुरैवैतन् भगवानब्जसम्भवः नारायणस्य विश्वात्मान कस्याद्धरं तदा कर्णविभो प्राह ते जीयते कृतागते अथापि योऽयम् कृतकिल्बिषा भवम् ये बर्हिशोभागभाजम् परादुः तथादि यध्वम् परिशुद्ध चे तथा क्षिप्रसादम् प्रगृहीताङ्घ्रिपद्मम् आशा सासाम् जीवितम् अध्वरस्य लोकसपालकुपितेन यस्मिन् तमासु देवम् प्रियाविहीनम् क्षमापि यध्वम् नाहं नियज्ञो न च भूयमन्ये ये देहभाजो मुनियश्च तत्त्वं विधुप्रमाणं बलवीर्ययोर्वाञ्जस्यात्मतन्त्रस्य शङ्क उपायं विधि सेत् स युत्थमादिश्य सुरानजस्तै समन्वितपितृभिः सप्रजेशैः जयोस्वदिष्ण्यान्निलयं पुरद्विषकैलासमद्रीप्रवरं प्रियं प्रभो जन्मौषधि तपोमन्त्रयोगसिद्धैनरेन्दरेतरैर्दुष्टं किन्नरं गन्धर्वैरप्सरसोऽभिमृतं सदा नानामणिमन्मयै सिंहै नानाधातुविचित्रितै नानादुमलतागुल्मयैर्नानामृगणावृतैः नानामलप्रस्रमयम् नाना वर्णैर्नानाकन्दरसानभे रमणं विहरन्तीनां रमणैसिद्ध्ययोषितां मयूरके काभिरुतं मदान्धारे विमूर्च्छितम् प्रावितैरक्तकण्ठानां कूजितैश्च पदतॄणाम् आह्वयन्तम् इवो धस्तैर्द्विजानकामधुगैर्द्रुमैः व्रजन्तमिव मातङ्गैः गृणन्तम् इव निर्झरैः मन्दारैः पारिजातैश्च सरलैश्चोपशोभितं तमालैः सालतालैश्च कोविदारासनार्जुनैः च्यूतैकदम्बैर्णिपैश्च नागपुन्नागचम्पकैः पाटलाशोकबकुलैकुन्दैकुर्वकैरपि सर्णार्णत्पत्रैश्च वररेणूकजातिभिः कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितं परसोद्दुम्बरा स्वस्थं प्लक्षण्यग्रोदं ददिङ्गुवि भुजैरोषधवि पूगैराजपूगैश्च जम्भुवि खर्जुराम्रातकाम्राज्यै ध्रुवजातीभिरन्यैश्च राजितं वेलुकीचकैः कुमदोत्पलकल्लारशतपद्रवनर्धिभिः नलिनीशोकलं कूजन् खगं दृन्दोपशोभितम् मृगैः शाखा मृगैक्रूरैर्मृगेन्द्रैरिक्षशल्लकैः गवयैर्सभैर्व्याघ्रेरुभिर्माहि सादिभिः कर्णात्र्यैकवदास्वास्यै निर्जुष्टं मृगनाभि कदलीखण्डसुरुद्धनलिनी पुलिनश्रियं पुलिनश्रियं पर्यस्तं नन्दया सत्या स्नाना पुण्यतरोदया विलोक्यभूते शगिरिं विविधा विस्मयं ययोः दधिशुस्तत्र तेरं वनं सौङ्गुं गन्धिकं चापि यत्र तन्नाम पङ्कजं नन्दा चालकनन्दा च चा सरितो भाषित पुर तीर्थपादपदाम्भोज रजसातीव पावने जयोसुरश्रियशब्दन्त अवरुध्य स्वधिष्णत क्रीडन्ति पुंसिञ्चन्त्यो विगाह्य रतिकर्षिताः ययोश्च स्नानं विभ्रष्टन् अवकुङ्कुमं पिञ्जरं पितृशोऽपि विपन्त्यम्भ पायन्तो गजागजिः तारहे महारत्नविमानसत्सङ्कुलां जुष्टां पुण्यजनस्त्रीभिर्यथाखं सदगमनं हिद्वाजक्षेश्वरपुरीं वनं सौगन्धिकं चतत। द्रुमैकामदृगैषिद्यं चत्रमाल्यफलच्छदै र